गणेशपुराणं क्रीडाखण्डम् अध्यायं ट्वेण्टि टु क उवाच अपरस्मिन् दिने राजा प्रातः स्नानकृतोद्यमः पौरा सर्वे विदर्क्यैवं नायं देवो न मानुषः न देवश्चेत् कथं पञ्चमहान्तो देवदुर्धराः अजेया शक्रहरिभिर्हदा दैत्या महाबलाः देव एव भवेद् बालमध्येयं क्रीडते लघु इति तर्क्य तदस्तावदा गदा राजदर्शनं राजाभिभद्रमगमधुवाजसकलान् प्रति निरूपयन्तु यत्कार्यं तद्वत्सिद्धिं प्रयास्यति किमर्थं प्रादरे वैः पौरायूयं समागताः तवो चुर्णरहस्यं यत् स्वाभिप्रेदमृदे वचः त्वया हि समनीदो मुनिपुत्रो विनायकः न स्यात् दास्यमभून्नो हि किञ्चित् क्वापि कदाचन त्वयादुपूचितोनेकवारं स्वशरणे स्थितः यद्यत्तव गृहे यादि तत्तन्न प्रेषयस्यः अयं तु न कथं राज न प्रेषितो नु राजोवाय सम्यगुक्तं यत्र विभज्य भुज्यते तु अमृतं याति च विषं विषमन्यद्भवेत्तु तद् अस्मिन् यस्य भवेद्भक्तिर्देवो वा मानुषेऽपि वा स एनं स्वगृहे नीत्वा पूजयेद्भोजयेदपि जनास्तु त्रिविधा पौरा रजसत्त्वतमो गुणैः परीक्षन्देन्मरा दुष्टा पुण्यवन्दो भजन्त्यपि केचिदेनं विनिन्दन्ति प्रशंसन्ति च केचन यस्य स्वभावो यादृक्स्यात्स तथा वर्तते नरः न जहादिकृष्यमाणश्चन्दनस्वसुगन्धितां कस्तूरीकर्दमयुध पलाण्डु वा निजं गुणम् भवतां यदि भक्तिश्चेदन्यास्मिन् सुदेमुनेः नियतं पूजयन् स्वाशु भोजनाय प्रियाय च परीक्षार्थं न ज्ञेयोसौ जनको जननी मम मया कथं ैनं पूजयन्त्विधि अस्य शक्तिं दृढां दृष्ट्वा मम भक्तिर्विशिष्यते नायं चेन्मत्पुरीकृत्य कृतो यूयं क्व चाप्यहं यदि राजवज श्रुत्वा पुनरुचुश्च नागराः यथा वदसि कल्याण तत्तथा तदन्यथा अस्माकं कार्यसिद्धिर्या ताम कुरुष्व जनाधिप नीत्वे मं बालं पूजयामो यथार्हतः यदस्मिन्नन्तरे बालो वदतान् सदसिष्ठितान् जानन्नन्तर्गतं तेषां सर्वसाक्षी जगद्गुरुः विनायक उवाच किमर्थं मां प्रार्थयन्तो भवन्तो दिमहत्तराः अहं बालो मुनिसुदो मत्पूजनफलं नु किं भविष्यदि जानेहं भवदां व्ययकारिणां विवाहो व्रतबन्धो वा यज्ञो वान्यो महोत्सवः तदा भवद्गृहं यास्ये हव्यं कव्यं यदा भवेद असङ्ख्यादा भवन्तो हि कथमेको गृहं व्रजे वकेशिनीं किमर्थं वा गां धोक्ष्यदभवद्विधाः वाञ्छितार्थी कथं याजेत्यक्त्वा त्यक्त्वा कल्पद्रुमं द्रुमं अन्यत् क्षुद्रं वाञ्छितं वा तद्वद्यूयं समुत्सुकाः क उवाच विनायकवच श्रुत्वा श्रेणीमुख्या जघुः पुनः अस्मिन् विवाहे सम्पन्ने न स्तास्यदिक्षणं भवान् राज्ञप्रासादादृष्टोऽसि भक्तिं न सफलीकुरु अवाप्तकामस्य च ते सृष्टिस्थित्यन्धकारिणः सर्वान्धयामिनः सर्वं चित्तवृत्तिविजानदः कर्तुं वाप्यन्यथा कर्तुमकर्तुं वा क्षमस्यः चिदानन्दस्य नैवास्ति पूजाभिर्नप्रयोजनम् भक्तिप्रियो देव इति निगमं न वृथा कुरु निःशम्ये दिवचस्तेषां तानु चेदविनायकः एवं चेद्भवतां भक्तिस्तदा यास्ये नृपाज्ञया एवमाकर्ण्य तद्वाक्यं सर्वेऽपि स्वगृहान् ययुः मण्डपान् विदधु के जेत् के च वस्त्रगृहादुर्भक्या दर्श शोभाजना महा सुगंधचंदना च चुगंधी विचित्रानि चलाचिरा वा च। पक्वान्नानि विचित्राणि पञ्चामृतयुतानि च स्थापिता मूर्तयो नाना मुक्ता माला विभूषिताः एवं गृहे गृहे सर्वे सामग्रीं चक्रुरुत्सुकाः एको भून्नगरप्रान्ते ब्राह्मणो वेदशास्त्रविदशुक्लनामा शुक्लवृत्तिशान्तो दान्तः क्षमान्वितः श्रौदस्मार्थकर्मनिधिर्ब्रह्म निष्ठोऽतिथिप्रियः यस्य पत्नीमहाभागा विद्रुमा नामनामदः निःस्पृहाज्ञानसम्पन्ना सर्वावयवसुन्दरा दरिद्राज्ञाननिष्ठा सा पदिप्राणापदिव्रता तस्या गृहगदं दृश्यं न स्फुटं न राजदं ताम्रं भाजनं रीतिजं च गौरा वल्कलसंविदा ते जोज्ज्वाला सुशोभना यदङ्गतेजसा व्याप्तं दृश्यमानं न दृश्यते तेन वृत्तेन तुष्टा विधाय तस्षेण तोष्टो भूद्व विनयन चेवया स्वस्तस्ो ज्ञाननिषतिष्टृतभोजन कदाचि भिक्षिधं वाजितृे गृह महोत्सव कृते जन यलब्धम तेन तुष्ट सौ भाज्य मेथ्रवीदीद पत्नी नगरे वारिदोहम गृे गृहे आया प्रतिग्रह पूजा स विनायक मुनि मुनिगृहम भूभार हरण्यद आया गृहम चेत्स पूजा सा ब्रवीन् महतीं पूजां त्यक्त्वागृहे कथं भवतां सो किञ्चनानां कथं वा गृहमेष्यति गन्धपुष्पं पर्युषितं पक्वं कन्दफलं मुने भविष्यति कृतं सम्यगसम्यक् किं वा प्रयोजनं तस्य गृहेण भवतां प्रभो इति दि प्रिया श्रुत्वा पुनरुजे मुनिप्रियां स मां भक्तं विजानादि दीनानाथप्रभु प्रभुः भक्तिप्रियोऽस्ति देवोऽयं न लोभवशगो विभुः अर्णसा च पराशेन पुष्पेण प्रियदेहि सः सुवर्णानि च यार्वापि न हि दम्भादि समर्पितैः इत्याकर्ण्यवचस्तस्य विद्रुमा पुनरब्रवीद एवं चेत्तर्हि यत्सिद्धं तदेतस्मै निवेद्यदां तदोष्ठादशधान्यानां कृत्वा पिष्टं पपाच ओदनश्च कृतो जीर्णं तण्डुलानां जलाधिकः मुष्टिपिष्टं पर्णपुटे पक्वा भुङ्क्ते दिने दिने तत्तेन दिनमानेन द्रव्येण चैलमानयद गन्धाक्षतं च पुष्पाणि धूपम् दीपं महार्तिके वन्यं फलं वल्कलं च स्थापयामास चैकतः शुष्का मलका मुख शुष्कामलकवा प्रसार्य दर्भनजय सुसिग्रे स्वांगणे ध्वजं चकारकशिपून सौ ध्यान निष्टो नैवेद्यं भवान्मुन नैवेद्यम वैश्व प्रयत्नद यदिश्री महागणेशपुराणे क्रीडाखण्डे बालचरिते नाम द्वाविंशतितमोऽध्यायः ओ